हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षोडशश्चर्गः श्रीरामसद्मनि प्रविष्टेन सुमन्त्रेण श्रीरामम् प्रति महाराज सन्देशस्य श्रावणम् सीतयानुमतेन श्रीरामेण स्वलक्ष्मणेन रथमारुह्य गीतवाद्य सहकारेण पथि पौराणाम् स्त्री पुरुषाणां विविधा वार्ता आक्रमण प्रस्थानम् सतदन्तः पुरेद्वादं समतीत्य जनाकुलं प्रविताम् तदकक्षाम् असुसाद पुराणवी प्रास कार्मुक युवभी युवभिः मुष्ट कुण्डलैः स्वानुरक्तै अधिष्ठितान् तत्र काषायणो वृद्धान् वेत्रपाणिन् स्वलङ्कृतान् दर्श्य विष्ठितान् वारिष्टध्यक्षान् सुसमाहितान् ते समीक्ष समायान्तम् राम प्रिय चिकि च वहे श्वसोत्पतिता सर्वे ध्यासनेभ्य सम्भ्रमा तान्वाच सूतपुत्र प्रदक्षिणः क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति ते रामम् उपसंगम्य भक्तु प्रिय चिकेशवः सह भार्याय रामाय प्रतिवेदितमाज्ञाय सूतम् अभ्यन्तरम् पितुः राघव प्रियकाम्यया तै वैश्रवसंय संकाशं उपविष्टं स्वलङ्कृतम् ददर्श सूत पर्यङ्के सौवर्णे सोत्तरच्छदे वराह रुधिराभेण शुचिनाच च अनुलिप्तं अनुलिप्तम् चन्दनेन परन्तप वराह रुधिराभेण शुचिना च सुगन्धिन अनुलिप्तम् परार्घ्येन चन्दनेन परन्तपम् स्थितया पार्श्वतश्चापि बाल्यजनहस्तया उपेतं पीतया भूय चित्रया शशिनम् यथा तं तपन्तम् इवादित्यम् उपपन्नं सुतेजस वन्दे वरदं वन्दी विनयज्ञो विनीतवेत् प्राञ्जलि सुमुखम् दृष्ट्वा विहारशनाशने राजपुत्रम् उवाचेदम् सुमन्त्रो राजसत्कृतः कौसल्या सुप्रजा रामा पिता तम् द्रष्टुमिच्छति महिष्यापीहि कैकेय्य गम्यताम् तत्र एवम् मुक्तः सुसंवृष्टौ नरतिम्ह महद्युतिः ततः सम्मानयामास सीतामिदम् उवाच देवी देवैश्च देवीच च समागम्य मदन्तरे मन्त्रयेते ध्रुवम् किञ्चित् अभिषेचन संहितम् लक्षयित्वा ह्यभिप्रायम् प्रियकामासु राजानम् मदार्थम अशी देषणा सा प्रा महाराज जननी चाथ काम के, के सु दृष्टिया खालू महाराजो महिष्य प्रियम प्रणत अर्थ काम करम यादृशी पतिष्य दूता ग्रुवम मध्यम यजेक्षति कंसीघ्रो ग्रक्षा च महीपति पारिवारण सुखमस्व रमस्व पति सम्मानित सीता भक्तरम असी तरह अनुभवराज मङ्गलानिभिदध्युषि राजम् द्विजातिभिर्जुष्टम् राजसूयाभिषेचनम् कर्तुमर्हति ते राजा वासवस्यैव लोककृत् दीक्षितम् वृतसम्पन्नम् वराजीनधरम् शुचिम् पुरङ्गे शृङ्गपाणिञ्च पश्यन्ति त्वाम् भजाम्यहम् पूर्वाम् दिशम् वज्रधरो दक्षिणाम् पातु ते यमः वरुण पश्चिमामाशाम् धनेश स्तूत्तरम् निजम् अथ सीताम् अनुज्ञाप्य कृतकौतकमङ्गलः निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् पर्वताय दिव निष्क्रम्य सिंहो गिरिगुहाशय लक्ष्मणम् द्वारितोपश्य प्रभ्वाञ्जलि पुटं स्थितम् अथ मध्यमकक्षायाम् समागच्छत् सुरुज्जनैः स्वसर्वानर्थिनोद्धृत्वा समेत्य प्रतिनन्द्य च ततः पावक सङ्काशम् आरुरोहै रसोत्तमम् राजितं पुरुष व्याघ्रो राजनन्दनः मेघनादमसंवादम् मणिहेम विभूषितम् मुष्णन्तम् इव चक्षुषि प्रभय मेरुवर्चसम् करेणु शिशुकल्पै च युक्तम् परमवाजिभिः हरियुक्तम् स्राक्षो प्रथमिन्द्र युवाशुगम् प्रययो तूर्णमास्थाय राघवो ज्वलितश्रिय सपर्जन्य इवाकाशे स्वनवनाभिनादयन् निकेतान् निर्ययो श्रीमान् महाभ्र दिवचन्द्रमः चित्रचामर्पाणि तु लक्ष्मणो राघवानुजः जुगोप भ्रातरम् भ्राता स रथमाथाय पृष्ठतः ततो हले हला शब्दे तुमुले समजायते तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ततो हयेवरमुख्य नागश्च गिरिसन्निभ अनुजग्मो तथा रामन् शतशोथ सहस्रज अग्रत चासु सन्नद्धय चन्दन गुरुभूषिता खड्ग चापधरा शूरा जग्मुशंस भोजनः ततो वादि त्रिशब्द स्तरी शिंहनादाशरात शुश्रुविथी कर्म वातायतस्था भूषिता सामुसुपुष्पोभ जयो श्रीभरंदमृ राध्यामी प्रीशय तत वचोभि अग्रे हर्म्यस्था क्षितिस्थाश्चैव मन्दिरे नूनम् नन्दति चे माता कौसल्या मातृनन्दन पश्यन्ति सिद्धयात्रम् द्वान् पित्रम् राज्यमुपस्थितम् सर्वश्रीमन्त्रिनीभिश्च सीतां सीमन्त्रिनीं वरान् अमन्यन्त रामस्य हृदयप्रिया तया सूचरितम् देव्य पुरा नून महतप रोहिणी विवशांगम संयोग श्रृंगु प्रमादा नरोतम है सुश्रावराज मगस्थ प्रिया वाच उदाह राघव तक तदा प्रलापन सुश्रावोक सामगत से आत्मा विविधाच प्रवृष्टरूपस्य पुरे जनस्य एष श्रियम् गच्छति राघवोऽध्य राजप्रसादाद् विपुलाम् गमिष्यन् एते वयम् सर्वसमृद्धकामा एषा मयम् नो भविता प्रशास्तास् लाभो चिराय न ह्य पश्येन्न दुःखम् अनुजाधिपेऽस्मिन् स घोष वद्भिश्च हयै स नरगे पुरस्सरे स्वहस्तिकसूतमगधे महीयमान प्रवरै च वादकैः आभिष्टुतो वै श्रवणो यथाययो करेणुमातङ्गरशाश्वसङ्कुलम् महाजनौघे परिपूर्ण चत्वरम् प्रभृतरत्नम् बहुपुण्यसञ्चयम् सदर्श रामो विपलम् महापथम् इत्याशि श्रीमद् रामडे वाल्मीकि आदि काव्ये अयोध्याकाण्डे षोडश सर्गः श्रीसीता रामचन्द्रार्वणमस्तु